वासुदेव उवाच वरह क्षत्रियाणां विवाहः पुरुषर्षभ स च संशयितः पार्थः स्वभावस्यान्निमित्ततः प्रसह्यहरणञ्चापि क्षत्रियाणां प्रशस्यते विवाहहेतुशूराणामिति धर्मविदो विदुः स त्वमर्जुनकल्याणीं प्रसह्यभगिनीं मम हरस्वयंवरे हास्याः को वै वेदचिकीर्षितं ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येति कृत्यतां शीघ्रगान् पुरुषानन्यान् प्रेषयामासतुस्तदा धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै श्रुत्वैव च महाबाहुरनुजज्ञे सपाण्डवः भीमसेनस्तु तच्छ्रुत्वा कृतकृत्योभ्यमन्यत इति श्री महाभारते श्रीमहाभार आदिपर्व सुभद्राहर्वण युधिष्ठिराजायामशाधिकशततमोध्याय